श्रीगुरुभ्यो नमः हरिवो श्रीगुरुभ्यो नमः हरिः वो नवग्रहसूत्रम् आसत्ये नरजसा आसत्ये नरजसा वर्तमानो वर्तमानो निेषयन् अमृतम् निेषयन् अमृतम् त्यम् च हिरण्ययेन हिरङ्ग्येन सविता सविता रथेन देवो याति रथेन देवो याति भुवना विपश्यन् भुवना विपश्यन् अग्निम् दूतम् वृणीमहे अग्निम् दूतं वृणीमहे होतारम् अतारम् दृष्टवे वेदसम् विश्ववेदसम् अस्य यज्ञस्य अस्य यज्ञस्य सुक्रतुम् सुक्रतुम् येषामीषे एषामीशे पशुपतिक् पशूनाम् पशुपति पशूना चतुष्पदा चतुष्पदा मुदजद्विपदा मुदजद्विपदा निष्क्रीतोऽयम् निष्क्रीतोऽयम् यज्ञियम् यज्ञियम् आगमेतु आगमेतु राजस्पोषा रायस्पोषा यजमानस्य सन्तु यजमानस्य सन्तुमधिदेवता ेवता प्रत्यधिदेवता प्रत्यधिदेवता सहिताय सहिताय आदित्याय नमः आदित्याय नमः आप्यायस्व आप्यायस्व समेतु ते समेतु ते विश्वतस् सोमवृष्ण्यम् सोमवृष्ण्यम् भवाजस्य भवाजस्य सञ्जे सङ्कते अप्सु मे अप्सु मे सोमो सोम अब्रवी अन्तर्विश्वानि अन्तर्विश्वानि भेषजा वेषजा अग्निम् च अग्निम् च विश्वशम्भुवमापश्च विश्वशम्भुवमापश्च विश्वभेषजी देश विश्वभेषजी देश गौरी विमाय ौरिमिमाय सलिलानि सलिलानि चक्षत्येकपदि अक्षत्येकपदिपदी सा द्विपदी सा चतुष्पदी अष्टपदी अष्टापदी नवबी नवपति बभूषि बभूषि सहस्राक्षरा सहस्राक्षरा परमे परमे व्योमम् व्योमम् ॐ अधिदेवता ॐ अधिदेवता प्रत्यधिदेवता प्रत्यभिदेवता सहिताय सहिताय सोमाय नमः सोमाय नमः अग्निर्मूर्धा अग्निर्मूर्धा दिवः ककुत्पतिः दिवकुत्पतिः पृथिव्या अयम् पृथिव्या अयम् अपागुम्रेता गुंसि अपागुमरेता गुंसि जिन्वति शो न पृथिवीणा भवान् ऋक्षरा भवान् ऋक्षरा निवेशनि निवेशनि यच्छानचानर्म शर्म सप्रताः सप्रताः क्षेत्रस्य पतिना क्षेत्रस्य पतिना भयगों हितेनेव भयगो हितेनेव जयामसि जयामसि कामश्वम् रामश्वम् तोषयित् सनो मृडाती सनो मृडातीदृशे ॐ अधिदेवता ता प्रत्यदेवता प्रत्यभिदेवता सहिताय सहिताय अंगारकाय नम अंगारकाय नम उद्धृद्यस्वाग्ने उद्धव्यस्वाग्ने प्रतिजागृह्येण मिष्टा प्रतिजागृह्येण मिष्ठा मूर्ते भूर्ते सदुं सृजेता सदृंसृजेता गुणक्रन्न पितरं युवानम् पितरं युवानम् युवान मन्वातागुम् युवान मन्वातागुम् सेत्वये सेत्वन्तु इदं विष्णुर्विचक्रमे इदं विष्णुर्विचक्रमे श्रेधा वेगानि ते पदं समूढवस्य समूढमस्य पागुंसुरे पागुंसुरे विष्णोरराटमसि कृष्णोरराटमसि कृष्णोपृष्टमसि कृष्णोपृष्टमसि कृष्णो श्त्रेस्तु ोरसिष्ठोर्ध्रुवमसे विष्णो ध्रुवमसि वैष्णवमसि वैष्णवमसि विष्णवे त्वा वैष्णवे त्वा अदिदेवता प्रत्यदिदेवता अदिदेवता प्रत्यदिदेवता सहिताय सहिताय बुधाय नमः बुधाय नमः बृहस्पति बृहस्पते अतिधति बर् युम् भाति युम्बिभातिम्जनु ऋतुम्जन यदीद यद् देवयश्च बसर्त प्रजात बसर्त प्रजात तदस्मासु तदस्मासु द्रविणन्देहि द्रविणन्दे चित्रम् क्षेत्र इन्द्रमरुत्व इन्द्र मरुत्वा इहपागि सोमम् इगपागि सोमम् स्य पिब सुव प्रणीति तव प्रणीति तव शूर तव शर्मन्ना विवासन्ति सर्वसन्ति कवयस्व यज्ञाः कवयसु यज्ञा ब्रह्मजज्ञानम् प्रथमम् पुरस्तात् पुरस्तात् पुरस्ता, विसीमतस्विसीमत सुरुचो सुरुचो वेन आवः वेन आवः स उपमा उपमास्य अस्य दृष्टा सदस्य वृष्टासदस्य यो निमसदस्य विवः यो निमसदस्य विवः अधिदेवता प्रत्यधिदेवतादिवता प्रत्यधिदेवता सहिताय सहिताय बृहस्पतये नमः ृणस्ततये नमः प्रभः शुक्राय प्रभः शुक्राय मानवे भरद्वुम् मानवे भरद्वगु हव्यम् हव्यम् मतिं चाग्नये मतिं चाग्नये सुफूतम् सुहूतम् यो दैव्यानि मानुषा मानुषा जनूगुंषि जनूगुंषि अन्तर्विश्वानि अन्तर्विश्वानि विद्मना विद्मना जिगाति काति इन्द्राणि मासु इन्द्राणि सुपत्नी महमश्रवम्पत्नी नमः स्मरम् न क्यस्या नख्यस्या अपरञ्चन अपरञ्चन जरसा मरते पतिः जरसा मरते पतिः इन्द्रम्बो न्द्रम् विश्वतस्परे विश्वस्परि अवामहे अवामहे जनेभ्यः जनेभ्यः अस्माकमस्तु अस्माकमस्तु केवलः अधिदेवता प्रत्यधिदेवता प्रत्यधिदेवता सहिताय सहिताय शुक्राय नमः शुक्राय नमः सन्नो देवी रविष्टय सन्नो देवी रविष्टयापो भवन्तु आपो भवन्तो पीतये शय्यो रविश्रवन्तु नः शयो रविश्रवन्तु न प्रजापते प्रजापते न त्वदेतान्यो न त्वदेतान्यो विश्वा जातानि विश्वा जातानि परिता बभूव हरिता बभूव यत्कामास्ते यत्का जुगुमस्तन्नो अस्तु जुगुमस्तन्नो अस्तु प्रयज्ञामः यज्ञामः पतयोरयीणा पतयोरयीणा इमं यमप्रस्तरमागि इमं यमप्रस्तरमागि सीताङ्गिरोविः सीताङ्गिरोत् पितृभिः संविधानः पितृभिः संविधानः आत्वा आत्त्वा मन्त्रा मन्त्रा कविशस्ता कविशस्ता भगन्त्वेन राज राजन् राजन् अविषामादयस्व अविषामादयस्व ॐ अधिदेवता ॐ अधिदेवता प्रत्यधिदेवता प्रत्यधिदेवता सहिताय सहिताय शनैश्च राय नमः राय नमः या नश्चित्र अयानश्चित्र आभूवदूती आभूवदूती सदा वृध सका सदा वृदसका वृता वृता आयङ्गौः आयङ्गौः कृष्णिरक्र वेदसनम् मातरम् मातरम् कृष्णिरक्रवेदसनम् मातरम् कृष्णिरक्र वेदसनम् मातरम् पुनः पुनः पितरम् च पितरं प्रयन्सुवः प्रयन्सु वा ते देवी ते दे देवी दे निरुतिरा भवन्दृतिरा भवन् बादाम ग्रीवास्ववि ग्रीवास्वी द्रीव ग्रीवास्ववि सत्यम् रेवास्मवि सत्यम् विदन्ते विदन्ते तद्विष्या अद्विष्या म्यायुषो न म्यायुषो न मद्याददा जीवः अधिदेवता अधिदेवता प्रत्यधिदेव ेवता प्रत्येवता सहिताय सहिताय राघवे नमः राघवे नमः केतुं कृण्वन् न केतवे केतुं कृण्वन्न केतवेशो मर्या पेशसे मर्याः मृषद्भिरजायताःषद्भिरजायता ब्रह्मा देवाना ब्रह्मा देवाना पदवी कवीना पदवी कवीना ऋषिर्विप्राणा ऋषिर्विप्राणा महिषो ृध्रादे सुद्राणादे सदितिर् स्वनागुम्नागु सोमपवित्र सोमपवित्र पवित्र मत्येति पवित्रमत्येति एव सचित्र चित्रं सचित्र चित्रं चित्रक्षत्र चित्रक्षत्र चित्रतमम् चित्रतमम् वयोधा वयोधा चन्द्रं रयम् चन्द्रं रयम् उरुवीरम् उरुवीरम् चन्द्रचन्द्राभिर्चन्द्रचन्द्राभिृणते वृणते युवस्व युवस्वाधिदेवता अधिदेवता प्रत्यधिदेवता प्रत्यधिदेवता सहितेभ्यः सहितेभ्यः हेतुभ्यो नमः केतुभ्यो नमः ॐ मादित्यादि दित्यादि नवग्रह नवग्रह देवताभ्यो देवताभ्यो नमो नमः नमो नमः ॐ शान्ति शान्ति शान्ति ॐ शान्ति शान्ति शान्ति